द्रौपद्या सह सङ्गम्य वन्द्यमानस्तया प्रभुः महानसे तदानीन्तु साधयामास पाण्डवः संस्कृतम् प्रसवम् यान्ति स्वल्पमन्नम् चतुर्विधम् अक्षैयौवर्धते चानन्ते न भोजयते द्विजान् भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि शेषम् विघस सञ्जन्तु पश्चाद्भुङ्क्ते युधिष्ठिरः युधिष्ठिरम् भोजयित्वा शेषमश्नाति पार्श्वति द्रौपद्याम् भुज्यमानायान्तदन्नम् क्षयमेति च ेवम् दिवाकरात्प्राप्य दिवाकरसमप्रभः कामान्मनोऽभिलषितान् ब्राह्मणेभ्यो ददात् प्रभुः पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः ततः कृतस्वस्त्ययनाधौम्येन सह पाण्डवाः विजसङ्घैः परिवृताः प्रययुः काम्यकौवनम् इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि काम्यकवनप्रवेशे तृतीयोऽध्यायः